सुब्रह्मण्यस्तोत्राणि षण्मुखं च गणाधीशम् साम्भं च परमेश्वरम् सर्वदुःखविनाशाय सन्ततं चिन्तयाम्यहम् षडाननं चन्दनलेपिताङ्गम् महोरसं दिव्यमयूरवाहनं रुद्रस्य सूनुं सुरलोकनाथम् ब्रह्मण्यदेवम् शरणं प्रपद्ये जज्वल्यमानम् सुरवृन्दवन्द्यम् कुमारधारातमन्दिरस्थम् कन्दर्परूपम् कमनीयगात्रम् ब्रह्मण्यदेवम् शरणम् प्रपद्ये सदा बालरूपापि विघ्ना दृहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्ताम् श्रियम् कापि कल्याणमूर्तिः